ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सिक्स्टि एय्ट् हृषय ऊचुः मरुतेन कथं कन्या राज्ञे दत्ता महात्मना किं वीर्याश्च महात्मानो जादा मरुतकन्यया सूत उवाच आहरत्स मरुत्सोममन्नकामः प्रजेश्वरः मासि मासि महातेर्जाषष्टिसंवत्सरा नृप तेनते ते मरुतस्तस्य मरुत्सोमेन तोषिताः अक्षयान्नं ददुःप्रीताः सर्वकामपरिच्छदम् अन्नं तस्य सकृद्भुक्तमहोरात्रं न क्षीयते कोडिश्यो दीयमानं च सूर्यस्योदयनादपि मित्रज्योतेस्तु कन्याया मरितस्य च धीमतः तस्माज्जाधामहास त्वां धर्मज्ञा मोक्षदर्शिनः संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः यदि धर्ममवाप्येह ब्रह्मभूयायते गदाः अनेन स सुतो जातः क्षत्रधर्मसुतो जातःप्रतिपक्षो महातपाः प्रतिपक्षसुतश्चापि सृञ्जयो नाम विश्रुतः सृञ्जयस्य जयपुत्रो विजयस्तस्य जज्ञिवान् विजयस्य जयः पुत्रस्तस्य अर्अ्वस्मृत सुजा सह देव प्रतापवान्ये धर्मत्मा अहीन विश्रुतः अहीनस्य अहीन से चयत्स्त सं संकृतेरपि धर्मात्मा कृतधर्मा महायशाः इत्येदेक्षत्रधर्माणो नहुशस्य निबोधत नहुशस्य तु दायादा षडिन्द्रोपमतेजसः यदिर्ययादि यदिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततो वरः काकुस्तकन्यां गाम् नाम लेभे पत्नीं यदिस्तदा स यदिर्मोक्षमास्ताय ब्रह्मभूतो भवन्मुनिः तेषां मध्ये तु ययादिपृथिवीपतिः देवयानीमुशनसुदां भार्यामवापः शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः यतुं चतुर्वशुं चैव देवयानो व्यजायत द्रुह्यं चानं च पूरुं च शर्मिष्ठा वार्षपर्वणी अजीजनन्महावीर्यान् सुदान् देव सुतोपमान् रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम् असङ्गं काञ्चनं दिव्यमक्षय्यौ च युक्तं मनोजवैरश्वैर्येण कन्यां समुद्वहत् सतेन रथमुख्येन जिगाय सततं महीं ययादिर्युधि दुर्धर्षो देवदानवमानवैः पौरवाणां नृपाणां च सर्वेषां सोभवद्रथी यावत्सुदेशप्रभवकौरवो जनमे जयः कुरोः पौत्रस्य राज्ञर्तु राज्ञः पारीक्षितस्यः जगाम सरधो नाशं शापाद्गाद्यस्य धीमतः गार्ग्यस्य हि सुतं बालं स राजा जनमे जयः दुर्बुद्धिर्हिंसयामास लोहन्धीनराधिपः स लोहगन्धी राजर्षिः परिधावन्नितस्ततः पौरजानपदै त्यक्तो नलेभे शर्मकर्षिचिद शर्म कर्षिचिद् तदस दुःखसन्तप्तो नालभत्संवितं क्वचित् शरणं व्यथितस्तदा इन्द्रोतो नाम विख्यातो योऽसौ मुनिरुदारधीः योजयामास चैन्द्रो दशौनको जनमे जयम् अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः सलोकगन्धो व्यनशतस्यावभृतमेत्यः स वै दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा दत्तश्चक्रेन तुष्टेन लेभे तस्मात् बृहद्रथः तदो हत्वा जरासन्धं भीमस्तं रथमुत्तमं प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः स जरां प्राप्य राजर्षिर्ययादिर्नकुशात्मजः पुत्रं श्रेष्ठं वरिष्ठं च यदु मित्यब्रवीध्वजः जरावली च मां काव्यस्य शनसशापान्न च तृप्तोऽस्मि यौवने त्वं यदौ प्रतिपद्यस्वपाप्मानं जरयासः जरामे प्रदिगृह्णीष्व तं यदुःप्रत्युवाचः अनिर्दिष्ट ठाहि मे भिक्षा ब्राह्मणस्य प्रतिश्रुता साधुव्यायामसाध्या वै न ग्रहीष्यामि ते जरां जरायां बहवो दोषाः पानभोजनकारिताः नदे राजन राजन् ग्रहीतुमहमुत्सहे चिदश्मुतरो दीनो जरया शिथि वली संतात्र निराशो दुर्बलाकृति अशक्तकार्यकूतस्तु यौवने सहोपवीति ताका संतिते ते मत्तः प्रियतरा नृप प्रदिगृह्णन्तु धर्मज्ञपुत्रमन्यं वृणीष्व वै स एवमुक्तो यदुना दीव्रकोप समन्वितः उवाच वदतां श्रेष्ठो ज्येष्ठं तं गर्हयन् आश्रमः कस्तवान्योऽस्ति को वा धर्मविधिस्तव मामनाधृत्यदुर्बुद्धे यदहं तवदेशिकः देशिकः एवमुक्त्वा यदुं राजा शशापैनं स मे धृदया वयस्वं न प्रयच्छसि तस्मान्न राज्यभाङ्मूढप्रजाते वै भविष्यति तुर्वसौप्रतिपद्यस्वपाप्मानं जरयासः तुर्वसुरुवाच नकामये जरां तादकामभोगप्रणाशिनी जरायां बहवो दोषाः पानभोजनकारिताः तस्माज्जरां नदे राजन् गृहीतुमहमुत्सुहे ययादिरुवाच यस्त्वं मे दृदया जादो वयस्वं न प्रयच्छसि ोत्थव या संकीर्णेशुण प्रदिमन च पिशिता शिशु चान्यु मूढ़राजा भविष्य गुरधदार वा। वासस्ते पापं म्ेषु भविष्यति न संशयः सुत उवाच एवं तुर्वसुं शप्त्वा ययादि सुदमात्मनः शर्मिष्ठा या सुदं द्रुह्युमिदं वचनमब्रवीद द्रुह्यो प्रतिपद्यस्वर्णरूपविनाशिनीं जरा वर्षसहस्रं वै यौवनं स्वं ददस्वमे मे पूर्णे वर्षसहस्रे ते यौवनं स्वं चादास्यामि दास्यामि भूयोऽहं पाप्मानम् जरया सह द्रुह्यरुवाच नारोहेतरथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियं न सुखं चास्य भवति न तेन कामये ययादिरुवाच यस्त्वं मे हृदयाज्जादो वयस्वं न तस्माद्द्रुह्यो प्रियकामो न ते सम्पत्स्यदे क्वचित् नौ प्लवोत्तरसञ्चारस्तव नित्यं भविष्यति अराजाराजवंशस्त्वं तत्र नित्यं वसिष्यसि अनो त्वं पाप्मानं चरयासः एवं वर्षसहस्रं तु चरेयं यौवनेन ते अनुरुवाच जीर्णशिशुरिवाशक्तो जरयाह्यशुचिः सदा नजुहो जुहो दिश कालेऽग्निं तां नाभिकामये ययादिरुवाच यस्त्वं मे हृदयाजादो वयस्वं न प्रयच्छसि जरा दोषस्त्वयोक्तोऽयं तस्मात् त्वं प्रतिपत्स्यसे यौवनं प्राप्ता विनसिष्यत्यनो तव अग्निप्रस्कन्तनपरास्त्वं वाप्येवं भविष्यसि पूर्वत्वं प्रतिपद्य स्वपाप्मानं जरयासः जरावली च मां तादफलितानि च पर्ययुः काव्यस्योशनसशापान्न च तृप्तोऽस्मि यौवने कञ्चित्कालं चरेयं वै विषयान्वयसा तव पूर्णे वर्षसहस्रे ते प्रदिदास्यामि स्वं चैव प्रतिपत्स्येकम् पाप्मानं जरया सूत उवाच एवमुक्तप्रत्युवाच प्रत्युवाच पितरमञ्जसा यथा तु मन्यसेतादकरिष्यामि तथैव च प्रतिपत्स्ये च ते राजन् पाप्मानं जरया सः गृहाण यौवनं जरया कम्प्रदिच्छन्नो वयोरूपधरस्तव यौवनं भवदे दत्त्वा चरिष्यामि यथार्थवत ययादिरुवाच पुरोप्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि सर्वकामसमृद्धादे प्रजाराज्ये राज्ये भविष्यति सुत उवाच पूरोरनुमदो राजा यया दिस्वजरां तदखा शङ्क्रामयामास तदा प्रासादभार्गवस्य तु गौरवेणाथ वयसा ययादिर्नहुषात्मजः प्रीतियुक्तो नरश्रेष्ठश्चचारविषयान् स्वकान् यथा कामं यथोत्साहं यथा कालं यथा सुखम् धर्माविरोधी राजेन्द्रो यथाशकृस एव हि देवानतर्पयद्यज्ञैः पिधृच्छ्राधैस्तथैव च दाराननुग्रहैरिष्ठैः कामैश्च द्विजसप्तमान् अतिथीनपानैश्च वैश्यंश्च परिपालनैः आ नृशंस्येन शूद्रांश्च दस्योन्सन्निग्रहेण च धर्मेण च प्रजा यथा यथावदनुरञ्जयद् यया दिःपालयामास साक्षादिन्द्र इवापरः स राजा सिंहविक्रान्तो युवाविषयगोचरः अविरोधेन धर्मस्य चचार सुखमुत्तमं समार्गमाणकमानामदद्दोषनिदर्शनाथ विश्वाच्यासहितो रेमे वैभ्राजे नन्दने वने अपश्यत् स यदा तान् वै वर्धमानान्नृपस्तदा गत्वा पूरो वै स्वां जरां प्रत्यपद्यत सम्प्राप्य सदु तान् कामां तृप्तखिन्नश्च पार्थिवः कालं वर्षसहस्रं वै तस्मार परिसङ्ख्याय परिसंख्याय कालेच कला काष्ठास्तथैव च पूर्णमत्वात् तथा कालं पूर्वं पुत्रमुवाच यथा सुखं यथोत्साहं यथा कालमरिन्दमा सेविता विषयः पुत्रयौवनेन मया तव पुरोप्रीतोऽस्मि भद्रं ते गृहाणत्वं राज्यं चत्वं त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः प्रतिपेदे जरां राजा ययातिर्नकुशात्मजः यौवनं प्रदीपेदे च पूरुस्वं पुनरात्मनः अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसं ब्राह्मणप्रमुखा वर्णा इदं वजनमब्रुवन् कथं शुक्रस्य नप्तारं देवयान्यासुतं प्रभो ज्येष्ठं यदुमधिक्रम्य राज्यं दास्यसि पूरवे यदुर्ज्येष्ठस्तवसुधो जातस्तमनुर्वसुः शर्मिष्ठा यासुदो द्रुह्युस्तदो नुः पुरुरेव च कथं सुदः सम्बोधयामस्त्वां धर्मं समनुपालय ययातिरुवाच ब्राह्मणप्रमुखावर्णा सर्वे शृण्वन्तु मे वचः ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन मातापित्रो वचनकृद्वीरपुत्र प्रशस्यते मम यदुना नियोगो नानुपालितः प्रतिकूलः पितुर्यश्च न स पुत्रः वर्तदे मतः सपुत्रः पुत्रवद्यश्च सुर्वसुनापि च दृह्युना चनुना चैव मय्यवज्ञा कृता भृशं पूरुणा कृतं वाक्यं मानितश्च विशेषतः कनीयान् मम दयादो जरायेन धृता मम सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा शुक्रेण च वरो दत्तकाव्येनोशनसा स्वयं पुत्रो यस्त्वानुवर्तेत स राजादुमहामते प्रजा ऊचुः भवतोऽनुमतोऽप्येवं पूरु राज्येऽभिषिच्यताम् यः पुत्रो गुणसम्पन्नो मातापित्रोऽर्हितः सदा सर्वमर्हति कल्याणं कनीयानपि स प्रभुः अर्हेस्य पूरूराज्यस्य यः प्रियः प्रियकृतव वरदानेन शुक्रस्य न शक्यं पौरजान पदैस्तुष्टैऋत्युक्ते नाहुषस्तदा अभिषिच्य ततः पूर्वं सराज्ये सुधमात्मनः दिशि दक्षिणपूर्वस्यां तुर्वस्सुं तु न्यवेशयद दक्षिणापरतो राजा यदुं ज्येष्ठं न्यवेशयद प्रतीच्यामुत्तरस्यां च चा द्रुह्युं चानुं च तावुभौ सप्तद्वीपां ययादिस्तु जित्वा पृथ्वीं ससागरां व्यभजत् पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा तैरीयं पृथिवी सर्वा सप्तद्वीपा सपत्तना यथा प्रदेशं धर्मज्ञायैर्धर्मेण प्रतिपान्यते एवं विभज्य पृथिवीं पुत्रेभ्यो नाघुषस्तदा पुत्र प्रीतिमा नभवन्नृपः धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु अत्र गाधा महाराज्ञा पुरागीदाययातिना गीता ययातिना याभिप्रत्याहरेत् कामात् कोर्मौङ्गानीव सर्वशः न जातुकामः कामानमुपभोगेन शाम्यदि अविशा कृष्ण वर्त्मेव भूययेवाभिवर्धते यत्पृथिव्यां व्रीहियवं हिरण्यं पशव स्त्रियः नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति यदा न भावम् सर्वभूदेष्वमङ्गलं कर्मणा मनसा वाचा ब्रह्मसम्पद्यते तदा यदा परान्न बिभेदि यदा न्यस्मान्न बिभ्यति यदा नेच्छति न द्वेष्टिब्रह्म सम्पद्यते तदा या दुस्त्यजा दुर्मधिभिर्या न जीर्यति जीर्यतः यैषा प्राणान्दिगोरोगस्तां तृष्णां त्यजतः सुखं जीर्यन्ति जीर्यधेशा दन्ता जीर्यन्ति जीर्यतः जीविता शाद्धनाशा च जीर्यतोपि न जीर्यति यच्च कामसुखं लोके यच्च दिव्यं महत्सुखं कृष्णाक्षय सुखस्यैदत्कलां नर्सन्दिषोडशीं येवमुक्त्वा सराजर्षिः सादरः प्रस्थितो वनं भृगुतुङ्गे तपस्तप्त्वा तत्रैव महायशाः पालयित्वा पालय्रत चाषं त्रर्गवा तस् वंशास्त पंचईदे पुण्य दर्षि सत्ता पृथिवी कृष्ण सूर्य गभस्थिभुर्ति भव यया तेश्चारितं सर्वं पठन् श्रृण्वन् द्विजोत्तमाः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमोऽध्यायः ओ